श्रीमन महाभारते सभापर्वणि शिशुपालवधपर्व चत्वारिंशोऽध्यायः वैशंपायन उवाच ततः सागर सङ्काशम् दृष्ट्वा नृपतिमण्डलम् संवत्तवाताभिहितम् भीमम् क्षुब्धमिवार्णवम् रोषात् प्रचलितं सर्वमिदमाह युधिष्ठिरः भीष्मम् मतिमताम् मुख्यम् वृद्धम् गुरु पितामहम् बृहस्पतिम् असौ रोषात् प्रचलितो महान् नृपतिसागरः अत्र यत्प्रतिपत्तव्यम् तन्मे ब्रूहि पितामहः यज्ञस्य च न विघ्नः स्यात् प्रजानाम् च हितम् भवेत् यथा सर्वत्र तत्सर्वम् ब्रूहि मेऽद्यपितामह इत्युक्तवति धर्मज्ञे धर्मराजे युधिष्ठिरे उवाचेदम् वचो भीष्म ततः कुरु पितामहः मा भयस्त्वम् कुरु शार्दूलश्वासिंहम् हन्तुमर्हति शिवः पन्थाः सुनीतोऽत्र मया पूर्वतरम् वृतः प्रसुप्ते हि यथा सिंहे श्वानस्तस्मिन् समागताः भषे युस्सहिताः सर्वे तथेमेव सुधाधिपाः वृष्णिसिंहस्य सुप्तस्य तथा प्रमुखे स्थिताः भषन्ते तात सङ्क्रद्धाः श्वानसिंहस्य सन्निधौ न हि यावत् सुप्तः इवाच्युतः तेन सिंहीकरोत्येतान् नृसिंहश्चेदि पुङ्गवः पार्थिवान् पार्थिव श्रेष्ठः शिशुपालोऽप्यचेतनः सर्वान् सर्वात्मना तातनेतु कामोऽयमक्षयम् नूनमेतत् समादातुम् पुनरिच्छत्यधोक्षयः यदस्य शिशुपालस्य ते च स्तिष्ठति भारत विप्लता चास्य भद्रन्ते बुद्धिर्बुद्धिमताम् वर चेदि कौन्तेय सर्वेषाम् च महीक्षिताम् आदातुञ्च नरव्याघ्रो यम् तस्य विप्लवते बुद्धिरेवञ्चेदिपतेर्यथा चतुर्विधानाम् भूतानाम् त्रिषु लोकेषु माधवः प्रभवश्चैव सर्वेषाम् निधनम् च युधिष्ठिरः वैशम्पायन उवाच इति तस्य वच श्रुत्वा ततश्चेदिपतिर्नृपः भीष्मन् रुक्षाक्षरावाच श्रावयामास भारत इति श्रीमहाभारते सभापर्वणि शिशुपालवधपर्वणि युधिष्ठिराश्वासने चत्वारिंशोऽध्यायः